भक्त दाजीपंत पुरातन काले मंगल ग्रामे, दामाजी दाजीपंत नाम कश्चन सज्जन निवसती स्म समीपस्थे बेदरनगरे शासन कुरनराज से शासनाधिकी सुदारूपे कार्यं करोति स्म सः परमश्रद्धालुः दैवभक्तः दानशीलश्च आसीत् दामाजीपन्तः महान् दाता इति सर्वत्र प्रसिद्धः आसीत् तस्य प्रसिद्धिं श्रुत्वा सुदूरस्थानेभ्यः अपि जनाः ततः दानं प्राप्तुं आगच्छन्ति स्म पन्तः अपि कदापि आगतान् रिक्तहस्तेन न प्रतिप्रेषयति स्म कदाचित तस्मिन् प्रदेशे अनावृष्टिः जाता जनाः आहारं अन्विष्यन्तः इतस्ततः गतवन्तः तेषु एव दिनेषु संप्रदायस्य। पञ्चसहस्रं जनाः पण्ढरपुरं गताः तत्र भगवतः पण्डरीनाथस्य दर्शनं कृत्वा ततः प्रतिनिवर्तनसमये दामाजिपन्तस्य कीर्तिं श्रुत्वा ते मङ्गलवेडग्रामम् आगतवन्तः दामाजिपन्तं दृष्ट्वा नमस्कृत्य अन्नं धान्यं च दामाजी दामाजीपन्तः तस्य ग्रामस्य शासनाधिकारी आसीत् तस्य आधीन्ये धान्यागारं अपि आसीत् परन्तु ततः धान्यस्वीकरणाय यवनराजस्य अनुमतिः अपेक्षिता आसीत् तथापि दामाजीपन्तः तस्य आज्ञाम विना धान्यागारं उद्घाट्य सर्वेभ्यः ब्याह याचकेभ्यः यथेष्टं दान्यं वितीर्णवान् सन्तुष्टाः ते सर्वे दामाजी दामाजीपन्तम् आशीर्वादैः अनुगृह्य ततः गताः मङ्गलवेडग्रामे कश्चन दुष्टः आसीत् सः एतं विषयं ज्ञातवान् दामाजीपन्तस्य कीर्तिम् असहमानः सः प्रवृत्तं सर्वमपि पत्रद्वारा यवनराजं निवेदितवान् दामाजिपन्तस्य विषये बहूनि मिथ्यापूर्वका वचना तस तत्पत्र पटिवा यवनराज नितरा कुवत साजीपत यथास्थित बंधी आनया आदि भटा तत्पत्र गृह मङ्गलवेडग्रामं गत्वा दामाजी दामाजीपन्तस्य गृहं प्राप्तवन्तः दामाजीपन्तः तत् आज्ञापत्रं पठित्वा वृत्तान्तं ज्ञातवान् स्वभार्यां च निवेदितवान् सापि नितरां दुःखिता अभवत् ततश्च भवती चिन्तां न करोतु देवः पण्डरीनाथः कथमपि रक्षति इति पन्तः पल्याः समाधानं कृतवान् तत्पश्चात् ते सर्वे भटैः सह बेदरनगरं प्रति प्रस्थिताः मार्गे पण्डरीपुरक्षेत्रं प्राप्तवन्तः दामाजिपन्तः तत्र चन्द्रभागानद्यां स्नानं कृत्वा पण्डरीनाथस्य मन्दिरं गत्वा तं भक्त्या प्रार्थितवान् भक्तवत्सलः देवः पण्डरीनाथः पन्तस्य साहाय्यं कर्तुम् निश्चितवान् सः सेवकरूपं दृत्वा, सपादलक्षमुद्रायुक्तं स्यूतं गृहीत्वा बेदरनगरं प्राप्तवान् कण्ठे कृष्णमणिमालां स्कन्धे कम्बलं कटिप्रदेशे कौपीनं मङ्गलवस्त्रं च सः धृतवान् आसीत् यवनराजं दृष्ट्वा सः उक्तवान् प्रभो अहमस्मि दामाजीपन्तस्य सेवकः सः एव मां प्रेषितवान् अस्ति धान्यस्य मूल्यरूपेण एताः मुद्राः स्वीकृत्य मह्यं प्राप्तिपत्रं ददातु इति यवनराजः विस्मितः सन्नपि प्राप्तिपत्रं लेखयित्वा दत्तवान् तद् गृहीत्वा सेवकः ततः अन्तर्हितः अभवत् तदा एव दामाजीपन्तम् आनेतुं गताः भटाः तेन सह तत्र सम्प्राप्ताः आगच्छन्तं पन्तं दृष्ट्वा यवनराजः विस्मयेन उक्तवान् भोः भवतः दूतः इदमिदानीम् आगत्य धनं दृत्वा प्राप्तिपत्रम् स्वीकृत्य गतवान् इति तत् श्रुत्वा दामाजिपन्तः नितरां विस्मितः अभवत् भक्तपराधीनः पण्डरीनाथः एव एवं कृतवान् स्यात् इति मत्वा सः जातः प्रवृत्तं सर्वं श्रुत्वा यवनराजः अपि विस्मितः भूत्वा दामाजीपन्तं तस्य औदार्यं भगवतः कृपां च पुनः पुनः श्लाघितवान्